अष्टमोऽध्यायः ध्यानम् ओम् अरुणाम् करुणातरङ्गिताक्षी धृरवाशाम् कुशपाणचापहस्ताम् अणिमादिभिरावृताम् मयूखैः अहमित्येव विभावये भवानी ओम् ऋषिरुवाच चरण्डे चनिहते दैत्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ततः कोपपराधीनचेता शुम्भः प्रतापवान् उद्योगम् सर्वसैन्यानाम् दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्या षडशीतिरुदायुधाः कम्बोराच गुरश्रीरिर्निर्यान्तु स्वबलैर्वृताः कोटिवीर्याणि पञ्चाशदसुराणाम् कुलानि वै शतम् कुलानि धौम्राणाम् निर्गच्छन्तु ममाज्ञया कालकादौर्हृदा मौर्याः कालकेयास्तथासुराः युद्धाय सज्जा मम इत्याज्ञाप्यासुरपतिः शुम्भोभैरवशासनः निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः आयान्तम् चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ज्यास्वनैः पूरयामासधरणी गगनान्तरम् ततः सिंहो महानादमतीव कृतवान् नृपा घण्टास्वनेन तन्नादमम्बिका धनुर्ज्या सिंहघण्टाणाम् नादापूरितदिङ्मुखा निनादैर्भीषणैः काली जिज्ञे विस्तारितानना तम् निनादमुपश्रुत्य देवी सिंहस्तथा काली सरोषैः परिवारिताः एतस्मिन्नन्तरे भूपविनाशाय भवायामरिंहामतिवीबलाता ब्रह्मेश गुह विष्णूनाथेन्द्र से शय शरीक्रम्य तद्रूपैश्चंडि यु यद्रूपं यूषणवाहन तत्वित ततिरसुराण्योधुमा हंसयुक्त विम अग्रे सासूत्रकम्डलु आयाता ब्रह्मणः शक्तिर्ब्रह्माणि साभिधीयते माहेश्वरी वृषारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना योद्धुमभ्यालयो दैत्यारम्बिका गुहरूपिणी तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता शङ्खचक्रगदाशार्गखज्जहस्ताभ्युपाययौ यज्ञवाराहमतुलम् रूपम् या बिभ्रतो हरेः शक्तिः साप्याययौ तत्र प्राप्ता तत्र सटा वज्रहस्ता तथैवैन्द्रिगजराजोपरिस्थिता प्राप्ता सहस्रनयना यथाशक्रस्तथैव सा ततः परिवृतस्ताभिरीशानो देवशक्तिभिः हान्यन्तामसुरा शीघ्रम् मम प्रीत्याह चण्डिका ततो देविशरीरात्तुमिनिष्क्रान्तातिभीषणा चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी हधूम्रजटिलीशानमपराजिता दूतत्वम् गच्छ भगवन्पार्श्वम् शुम्भनिशुम्भयोः ब्रूहि शुम्भम् निशुम्भम् च दानवावतिगर्वितौ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः त्रैलोऽप्यमिन्द्रो लभताम् देवाः सन्तु हविर्भुजः यूयम् प्रयात पातालम् यदि जीवितुमिच्छस बलाबलेऽपाधत चेद्भवन्तो युद्धकाङ्क्षिणः परागच्छत तृप्यन्तुमच्छिवाः पिशितेन दौत्येन तया देव्या शिवः स्वयम् शिवदूतीति लोकेऽस्मिंस्ततः अमर्षा पूरिता जग्गुर्यत्र कार्त्यायनी स्थिता ततः प्रथममेवाग्रे शरशक्तिष्टिवृष्टिभिः ववर्षुरुद्धतामर्षास्ताम् देवीममरारयः सा च तान्प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् चिच्छेदलीलया धत धनुर्मुक्तैर्महेशुभिः त्रतस्तथा काली शूलपात विदारिता खड्वागोथाशारीवती व्यचर तदा कमंडल जलाक्षेपतवी हतौ जसह ब्रह्माकन्त्रून्यन येन, येन स्म धातीहेशूल तथा चक्रेण वैष्णवी दैत्याजानकौम तथा शक्तियाना ऐन्द्रिकुलिशपातेन शतशोदैत्यदानवाः हेतुर्विदारिता पृथ्व्याम् मृधिरोघप्रवर्षिणः तुण्डप्रहारविध्वस्तादंष्ट्राग्रक्षतवक्षसः वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः नखे विदारितांश्चान्यान् भक्षयन्ती महासुराणि नारसिंही च चारादौ नादापूर्णरिगम्बरा चण्डाट्टहासैरसुराः शिवदोत्यभिदूषिताः पेतुः पृथिव्याम् पतितांस्तांश्च खादाथसा तदा इति मातृगणम् प्रदृथम् वर्दयन्तम् महासुरान् दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः पलायनपरान् दृष्ट्वा दैत्यान्मातृगणार्जितान् योद्धुमभ्याययो क्रुद्धो रक्तबीजो महासुरः रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः समुत्पतति मेदिन्याम् तत्प्रमाणस्तदा सुरः युयुधे स पाणिरिन्द्रशक्त्या महासुरः ततश्चैन्द्रियस्वज्रेण रक्तबीजमताडयत् कुलिशेनाहतु बहुसुश्राशोणित स मुतस्थुस्तो योधास्तूपस्तराक्रमा यति शरीराद्रक्तबिंद पुषा जातावीर्यबल विक्रमा चापीजुधुस्त पुरसंभवातृभिग्रशस्पता पुनश्च वज्रपातेरक्षतमस्य शिरो यदा बवाहरक्तम् पुरुषास्ततो जाताः सहस्रशः वैष्णवीसमरे चैनम् चक्रेणाभिजगानः गदयाताडयामास ऐन्द्रितमसुरेश्वरम् वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः सहस्रशो जगद्व्याप्तम् तत्प्रमाणैर्महासुरैः शक्त्या शक्तिया जघाण कौम माहेश्वरी त्रिशूले महेश्वरीशूलन महासुरं महासुर सदया दैत्य सर्वा एवं पृथक मातृपोपसिष्टो रक्तबीजो महासुर तरह तहुधा शक्तिशूलाभु पतयोग वै रक्तस्तेना सतशोसुरा तैश्चासुरासृक्सम्भूतैरसुरैः सकलम् जगत् व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् तान् विषण्णान्सुरान् दृष्ट्वा चण्डिका प्राहसत्वरा उवाचकालीम् चामुण्डे विस्तीर्णम् वदनम् कुरु मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् रक्तबिन्दोः प्रतीच्छत्वम् वक्त्रेण अनेन वेगिना भक्षयन्ती चरणे तदुत्पन्नान् महासुरान् एवमेष क्षयम् दैत्यः क्षीररक्तो गमिष्यति भक्ष्यमाणास्त्वया चोक्रा न चापरे इत्युक्त्वा ततो देवी शूलेनाभिजघानतम् मुखेन कालीजगृहे रक्तबीजस्य शोणितम् ततो वा जघानाथ गदया तत्र चण्डिकाम् न चास्या वेदनाम् चक्रे गदा पातोऽल्पिकामपि तस्याः तस्य देहात्तु बहुशुस्रावशोणितम् यतस्तरस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति मुहे समुद्गता ये स्या रक्तपातान्महासुराः चामुण्डा पपौतस्य च देवीशूलेन वज्रेण बाणेरसिभिदृष्टिभिः जघानरक्तबीजम् तम् चामुण्डापीतशोणितम् सपपातमही पृष्ठे शस्त्रसङ्घसमाहतः नीरक्तश्च मही बालरक्तबीजो नीरक महासुरः ततस्ते हर्षमतुलमवापुस्तृदशा नृप तेषाम् मातृगणो जातो ननर्तासङ्मतोद्धतः ओ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये रक्तबीजवधो नाम अष्टमोऽध्यायः